मेधा देवी जुषमाणा न आगाद्विश्वाचीभद्रासुमनस्यमाना त्वयाजुष्टानुदमाना दुरुक्ताम् बृहद्वदेमविदधे सुवीराः त्वजा जुष्टऋषिर्भवति देवि ब्रह्मा त्वजा ब्रह्मागतश्रीरुतत्वजा त्वजाजुष्टश्चित्रम् विन्दते वसुसानो जुषस्वद्रविणो न मेधे मेधाम् म इन्द्रो ददातु मेधाम् देवी सरस्वती मेधाम् मे अश्विनाभुभावाध पुष्करस्रजा अप्सरासु च या मेधा गन्धर्वेषु च जन्मनः दैवीम् मेधासरस्वती सा माम् मेधातुरभिर्जुषता स्वाहा आमाम् आम मेधातुरभिर्विश्वरूपा हिरण्यवर्णा जगति जगम्या कूर्जस्वती वयसा पिन्वमानासा माम् मेधासु प्रतीकाजुषन्ताम् मयि मेधाम् मयि प्रजां मयि जग्निस्तेजो दधातु मजि मेधाम् मयि प्रजां मयीन्द्र इन्द्रियम् दधातु मजि मेधाम् ॐ शान्तिान्तिः